श्रीहरये नमः द्वयसीतितमोऽध्यायः श्रीशुक उवाच अतै वसतो रामकृष्णयोः सूर्योपरागसुमहान् आसीत् कल्पक्षये यथा तं ज्ञात्वा मनुजा सर्वतः समन्तपञ्चकं क्षेत्रं ययोः श्रेयो विदित्सया निक्षत्रियामहीं कुर्वन् रामशस्त्रभृतां वरहा नृपाणामृदिरोगेण यत्र चक्रे महाह्रदान् ईजे भगवान् रामो यत्रास्पृष्टोऽपि कर्मणा लोकस्य ग्राहयन् गीशो यथान् योगाभन्त्तये महत्यां तीर्थयात्रायां तत्रागन्भारती प्रजाः वृष्ण यस्य तथा क्रूर वसुदेवाहुकादयः ययोर्भारधतत्क्षेत्रं स्वमघं क्षभयिष्णवः गतप्रत्युम् न सम्बाध्या सुचन्द्रसुखसारणैः आस्ते निरुद्धो रक्षायां कृतवर्मा च यूतपः ते रथैर्देवदिष्ण्याभैर्हयैश्च तरलप्लवैः गजैर्नधद्भि अभ्राभैर्नृभिर्विद्याधरद्युभिः पथिकाञ्चनमालिनः दिव्यस्रग्वस्त्रसन्नाः कलत्रै केचरा इव तत्र स्नात्वा महाभाग उपोक्षसुसमाहिताः ब्राह्मणीप्यो धुर्धेनोर्वासशृगृक्ममालिनीः रामःु विधिवत् पुनराप्लुत्य ददुःस्वर्णं द्विजाग्रेभ्य कृष्णेनो भक्तिरस्त्विति स्वयं च तदनुज्ञाता कृष्णकृष्णदेवताः भुक्तोपविशुकामं स्निग्धश्चायाङ्ग्रिपाङ्ग्रिषु तत्रागतांस्ते धतृषो सुहृत्सम्बन्धिनो नृपान् मत्स्योऽसी नरकौसल्य विदर्पकुरु सृञ्जयान् काम्बोजकैकयान् माध्रान् कुन्दीनानर्थकेरलान् अन्यांश्चैवात्मभक्षीयान् परांश्च सतसो नृप नन्दादीन् सुगृधो गोपान् गोपीश्चोत्कण्ठिदा शिरम् अन्योन्यसन्दर्शनहर्षरं हसा रोत्पुल्लहृद्वक्त्रसरोरुहश्रियः आश्लिष्य घाटं नयनै स्रवज्झलात् कृष्यत्वचो रुद्धगिरो युर्मुधम् स्त्रियश्च संवीक्षमितोऽतिसौहृद नितामलापङ्गदृशो बिरे बिरे तनैस्तनान् कुङ्कुमपङ्करोक्षितान् निहत्यधोर्भिप्रणयाश्रुलोचनाः ततो विवाद्यते वृद्धान् ष्टै अभिवादिताः स्वागतं कुशलं दृष्ट्वा चक्रो कृष्णकथामितः पृथा भ्रातॄन् श्वश्रोर्वीक्ष तत्पुत्रान् पितरावपि भ्रातृपत्नीर्मुकुन्दं च जकौ सङ्कथया सुचन्त्युवाच आर्यभ्रातरहं मन्ये आत्मानम् अकृताशिषं यद्वा आपत्सु मद्वार्ता नानुस्मरत सत्तमाह सुहृदो ज्ञातयः पुत्रा नानुस्मरन्ति स्वजनं यस्य दैवमदक्षिणं वसुधेव उवाच अम्बमास् मानसूयेता दैवक्रीडनकान्तरान् ईशस्य हि वशे लोकं कुरुते कार्यते तवा कंसप्राधापिता सर्वे वयं दिशं दिशं ये पुनस्थानं दैवेन आसादिता स्व सहा वसुदेवाग्रसेनाध्यैर्यदुभिस्तेर्चिता नृपाः आसन्यच्युतसन्दर्श परमानन्दनिर्वृताः भीष्मो द्रोणाम्बिका गांधारी गान्धारी ससुता तथा साधारा पाण्डवा भोजो विराटश्च भीक्ष्मको नग्न जिन्महान् पुरुजि द्रुपतः सल्यो दृष्टकेतुः सकाशिराट् दमघोषो विशालाक्ष मैथिलो मद्रकेकयो यथामन्यु सुशर्माश सुसुता भाग्लिकाधञः राजोन्नो ये च श्रीनिकेतं वपुशौरे सस्त्रीकम् वीक्ष्य विस्मिताः अते ते रामकृष्णाप्यान सम्यक्प्राप्त प्राप्तसमर्हणाः प्रससं शूर्मुदा युक्ता भृष्णीन् कृष्णपरिग्रहान् अहो भोजपते यूयं। जन्मभाजो नृणामिह यत्पस्यता स हृत्कृष्णम् दूर्दर्शमपि योगिना यद्विश्रुतिश्रुतिनुतेदमलं पुनानि पादावने जनपयस्य वचस्य शास्त्रम् भोकालापर्जितभगाभि यदङ्क्रिपद्मस्पर्शोत्तम शक्तिरपि वर्षति नो शक्तिर किलार्थान् दद्दर्शनस्पर्शन अनुपत प्रजल्प सय्यासनासन स यौसनबिण्डबन्धः येषां गृहे निरयवर्त्मनि वर्तताम्बः स्वर्गाभवर्गविरम स्वयमास विष्णुः श्रीसुख उवाच नन्दस्तत्र यतून् प्राप्तान् ज्ञात्वा कृष्णपुरोगमान् तत्रागमत्पृतो गोपैरनास्तातैर्दिदृक्षया तं तृष्ट्वा वृष्णयो हृष्ठा तन्वः प्राणमिव बुत्थिताः चिरदर्शनकातराः वसुदेव परिष्वज सम्प्रीतः प्रेमविह्वलः स्मरन् कंसकृतान् क्लेशान् पुत्रन्यासं च गोकुले कृष्णरामौ परिष्वज पितरौ अभिवाद्य च न किञ्चनोचतोप्रेम्णा साश्वकण्ठौ कुरु तावात्मासनमारोप्य बाहुभ्यां परिरभ्य च यशोदा च महाभागा सुतौ विजखतु युः रोकिनी देवकी चात परिष्वज व्रजेश्वरी स्मरन्त्यौ तत्कृतां मैत्रें पाष्पकण्ठ्यौ समुचतुः का विस्मरे तवां मैत्रे अनिवृत्तां व्रजेश्वरी अवाप्याप्यैन्द्रमैश्वर्यं यस्या नेकप्रतिक्रिया केतावद्दृष्टपितरो युवयोस्म पित्रोः सप्रीणनाभ्यदुतय भोषणपालनानि प्राप्यु चतुर्भवति पश्म कयद्वत्क्षणोर्न्यस्तावकुत्र चपयो न सतां परस्व गोभ्यश्च कृष्णम् उपलभ्य चिराधभीष्टं यत्प्रेक्षणे दृशिषु पक्ष्मकृतं क्षुपन्ति ऋग्भिर्हृदिकृतमलं परिरभ्य सर्वास्तद्भावमापुरपि नित्ययुजां भगवांस्तास्तथा भूता विविक्तपसङ्गतः आश्लिष्यानामयम् पृष्ट्वा प्रगसन्निधमब्रवीत् अपि स्मरत न शक्य स्वानामर्थचिकीर्षया कथांश्चिरायितां शत्रोपक्षपणचेतसः अप्यवध्यायतास्मान् स्वितकृतज्ञाभिशङ्गया नूनं भूतानि भगवान् योनक्ति योनक्तिविनक्ति च वायोर्यथा घनानीकं तृणं तूलं रजांसि च संयोक्ष्या क्षिपते भूयस्तथा भूतानि भूतकृ मयि भक्तिर्हि भूतानाम् अमृतत्वाय कल्पते दृष्ट्या यथा से मत्स्नेहो भवतीनां मदापनः अहिंसि सर्वभूतानाम् आमादिरन्तोऽन्तरम्बहि भौतिकानां यथाकंवार् भूर्वायुर्ज्योतिरङ्गनाः एवं ह्येतानि भूतानि भूतेश्च आत्मात्मना उभयं मय्यतः परे पश्यता भातमक्षरे श्रीशुक उवाच अध्यात्मशिक्षया गोभ्य एवं कृष्णेन शिक्षिताः तदनुस्मरणध्वस्त आकूश्च ते नलिननाभपधारविन्दं योगेश्वरैर्कृतिविचित्यमगाधभूतैः संसारकूपतितोत्तरणावलम्बं गे कञ्जुषामपि मनस्त्युदि स्यात्सधान इति श्रीमद्भागवते महापुराणे दशमस्तन्ते उत्तरार्धे वृष्णिगोपसङ्घोमनाम द्वयसीतितमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमगराजिकी जै